मुद्गलपुराणं खण्डं सिक्स् विकटचरितम् अध्यायं टु शिवविष्णोवरप्रधानं श्रीगणेशाय नमः मुद्गल उवाच महाकालीमुखादेव्यश्रुत्वा योगं पुरातनं विस्मितास्ताः पुनः सर्वा वच ऊचुः प्रहर्षिताः शक्तय ऊजुः महामाये त्वया प्रोक्तं सर्वसंशयनाशनं श्रुत्वा वयं गणेशस्य योगं ज्ञानयुधाकृदाः काममोहितचित्तानां नः प्रत्यक्षो भवेत्कदा गणेशानस्त्वया प्रोक्तो जन्मकोडिशदैरपि गणेशप्राप्तिहीनाये जन्तवश्चेश्वरास्तथा जन्म तेषां निष्फलं सम्मतं बुधैः अहो ज्ञानयुधं देहं प्राप्य सर्वार्थदायकं सर्वधं गणनाधं ये न भजन्तेदि गूढकाः रासभाभिसमादे विज्ञातव्या ज्ञानवर्जिताः कामयुक्तस्वभावेन त्यजन्ति गणनायकं कामस्य चरितं शक्रे वदविस्तरदः परं कामनाशकरं येन ढुण्डि प्रलभ्यते त्वमस्माकम् पराकाष्ठा गुरुरूपेण संस्थिता देहि विघ्नेश्वरमादर्भजिष्यामो किलाः प्रभुम् आदिशक्रिरुवाच गणनाधावतारस्य तस्योपासनमात्रतः विकटस्य स्वयं कामखलो नश्यति तत्क्षणाद् अत्र वोहं पुरा जातमितिहासं वदामि हि येन कामव्यधाहीना भविष्यन्ति जनाः सदा कैलासगिरिवर्येदु शङ्करस्वेच्छयैकदा पार्वतीमोहनार्थाय भीमरूपधरो भवद अदृष्ट्वा शङ्करं सापि शोकयुक्ता बभूवः एतस्मिन्नन्तरे तत्रेन्द्रस्तं समाययौ मखवोऽग्रस्वरूपास्यं दृष्ट्वा कैलासनायकं राक्षसं तं विदित्वा सक्रोधयुक्तो बभूवः वज्रं तत्याजतं हन्तुं महेन्द्रसहसा समासाद्य निष्फलं तत् बभूवः तदक्रोधसमायुक्तशङ्करोग्निं तृतीयं नेत्रमुद्घाट्य दग्धुं देवपदिं स्वयं सहसाग्निम् स दृष्ट्वा दुत्तम् सस्मारबृहस्पतिम् स ज्ञात्वा तत्क्षणम् गत्वा प्रणनाम महेश्वरम् प्रसाद्य गिरिजानाथमिन्द्रम्भयसमाकुलम् अग्निनात्यर्थमानम्यम् तत्पादस्तम् चकारः इन्द्रस्थम् विविधाय स्तोत्राय प्रभुम् स्तुत्वा क्षमापयद अज्ञानजं महेशानोऽपराधं तस्य चाक्षमद तदशिवं समागत्याग्निस्तदं समुद्भवः प्रणम्य प्रत्युवाचेदं किं करोमि महेश्वर त्वदाज्ञया महादेव त्यक्त्वा देवपदिं कलं समागतं महेशान कार्यमाज्ञापयोत्तमम् निःसृतोकं त्वदं साद्वै न भविष्यामि निष्फलः सर्वम् ब्रह्माण्डमधवाग्रसिष्यामि त्वदाज्ञया अग्नेस्तद्वचनम् श्रुत्वा शङ्करस्तमुवाचः पदस्वत्वं समुद्रेवै वै मत्पुत्रो राक्षसवध्यविष्य महाबल तैलोक्यापतिर्भूमोपम क्यस वृंदज पत्नी तव भविष्य पुत्री सदी गणेशन शक्ता चापत्यदर्शनाद तां पादिभृत्यहीनां वै करिष्यदि जनार्दनः तदा मच्चक्रपादेन मरिष्यसि तदो संशयः ततो मद्रूपस्त्वं भविष्यसि राक्षसा कृतिरूपाद्वै जात यव महादेवस्थिक्षेपशक् जलधस् बूव भयदायक ततस्त्र सुद्भूद बालकस्ेजसुद तबीजा ब्रह्मणागत कृतो नाम्ना जलन्धरः तस्य मौञ्ज्यादिकं कर्मचकारजलधि स्वयं कालनेम्या दयो दैत्या बभूवुस्तस्य पार्श्वगाः शिवस्य वरदानेन जिज्ञे ब्रह्माण्डमण्डलम् जलन्धरस्तदो देवा वनवासम्प्रचक्रिरे वनेत्तपस्थितां वृन्दां दानवोऽपि ददर्शसः उभये मे कदा तां च गान्धर्वेणैव शक्तयः तयारे मे सदा दैत्यो मोहितो मायया भृशं न बुबोध गदं कालं सापि तद्गदमानसा तदकर्मविहीनं तु चकारसधरातलम् उपोषणेन संयुक्ता देवादयो बभूविरे कदाचिन्नारदस्तत्र जगामासुरनायकं तेन सम्भूजितो योगी तं जगाद जलन्धरम् नारद उवाच धन्योऽसि जलधे पुत्र सर्वरत्न विलासकृत तथापि शृणुदैत्येशस्त्रीरत्नं नास्ति नास्तिते गृहे पार्वत्यानसमं कुत्र वर्तते स विशेषतः रत्नभूतान सन्देह शङ्करेणानुभाविता एवमुक्त्वा महायोगी नारदोऽन्तर्दधे स्वयं सोऽपि श्रुत्वा विशेषेण कामबाणार्दितोऽभवद दूदसं प्रेषितस्तेन शङ्करं समागतः निशुम्भश्च महादेवं महाकलः निःशुम्भ उवाच शिवस्थ्वं नग्नताद्यैश्च चिह्नैर्युक्तो न दे प्रभो पार्वतीरत्नभूता सा योग्या भवति सर्वदा ब्रह्माण्डाधिपतिः सर्वश्रिया युदोधुना जलन्धरश्च तस्मै त्वं देहि शैलसुतां प्रभो प्रतापवान् क्रोधसमायुक्तो नो चेज्जलन्धरः हत्वा त्वां ताम बलात्सो विग्रहीष्यदि न संशयः वचस्तस्य समाकर्ण्यक्रोधयुक्तः सदाशिवः शूलं धृत्वा निःशुम्भं तं हन्तुं देवः प्रचक्रमे ततोभयसमायुक्तो मायया सुरनायकः पपालागत्यवृत्तान्तं कथयामास संसदि निशुम्भभाषितं श्रुत्वा तथ क्रोधसमायुधः जलन्धरो ययौ युद्धार्थं सैन्यसंयुधः समागतं समालोक्य महादेवः प्रतापवान् विष्णुमुख्यै स युद्धाय ययौ दैत्याधिपेन च देवानां दानवानां च युद्धं परमदारुणम् अभूद्वर्णयितुं देव्यः शक्यते न कदाचन वर्षमात्रं महाघोरं ततो दैत्यो महेश्वरं माययामोह्य सङ्गृह्य तं चिक्षेप गुहान्तरे कालनेमि मुखांस्तत्रास्ताप्य सङ्ग्राममण्डले जगाम जगामपार्वतीं दैत्यो मायया शङ्कराकृतिः तमागतं समालोक्य ज्ञानदृष्ट्या महासदी बुभोधविह्वलाङ्गं चान्दर्धानमकरोत् स्वयं सा सस्मारमः विष्णुं गत्वा किमगिरिं तदा समागतं विलोक्यैव वृत्तान्तं सर्वमब्रवीद सुत्वातां तां सान्त्वयामास परवीरह जलन्धरस्वरूपेण वृन्दां मोहयितुं ययौ जलन्धराकृधिस्थं तं दृष्ट्वा विष्णुं बुबोधसा सशापत्वं महाविष्णो तदो शैलाकृतेर्धरः ततोदिभयसंयुक्तो विष्णुशापसमन्वितः सिद्धक्षेत्रे समागम्य पूजयामास विघ्नपं गुहायां शङ्करश्चैव सावधानो बभूवः ध्यान नहोग्रेण तो सनबर प्रसिद्यम गणेश्वा शंकरण भक्ति संयुर् तुष्टाव विविध स्त्रोत्र गणेशंसिद कथयामासृत्तान्तं प्रणम्य परसम्पुटैः तदस्वहस्तगम् ढुण्डिर्ददौ तस्मै महात्मने चक्रं सुदर्शनं नाम्ना जगाद सदाशिवं मां स्मृत्वा युद्धकाले तं चक्रेण जहिदानवम् रक्ष सर्वान् महादेव विजयी प्रभविष्यसि यवमुक्त्वा गणेशानान्तर्दधे शङ्करस्ततः चक्रं गृह्य गुहायाश्च निर्जगाम बहिस्वयं दण्डकारण्यदेशेदु विष्णुर्विघ्नेश्वरं गदः तस्मै प्रत्यक्षभावेन वरं ददौ गणेश्वरः श्रीगणेश उवाच मा चिन्तां कुरु विष्णो त्वं मां स्मृत्वा गतः पुरा तेन शापयुधो जादोऽधुना शरणमागतः अत्रैव तपसातेऽहं वरदश्च पुरा भवं तेन ते सहाम्यद्यापराधं माधवाधुना कलया त्वं शिलासंस्थो भविष्यसि न संशयः पूर्णरूपेण देवेश्य स्वस्याकृति धरो भव नरास्त्वां पूजयिष्यन्ति शिलारूपधरं प्रभुं तत्र देवस्वरूपेण तिष्ठस्यत्र न संध्याय पुनर्मां हृदि सन्ध्याय जलन्धरस्वरूपदृक् वृन्दां गच्छ महाविष्णो सा भविष्यदि एवमुक्त्वा गणेशानोऽन्तर्दधे भक्तवत्सलभा विष्णोर्जलन्धरो भूत्वा ययौ वृन्तां तु शक्तयः ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते शिवविष्णोर्वरप्रधानं नाम द्वितीयोऽध्यायः ओ oh.